शम्भो महादेव देवा शिव शम्भो महादेव देव शिव शम्भो शम्भो महादेव देवादेव हालावनं मृत्तिरीटं हालनेत्र िषा दग्धपञ्चेषु कीटम् शूलाहतारातिकूटम् शुद्धमर्देन्दुचूडम् भजे मार्गबन्धुम् शम्भो महादेव अभ्र गङ्गा तरङ्गाभिरामोत्तमाङ्गम् ओङ्कारवाटी पुरङ्गम् सिद्ध संसेविताम् िदानन्दरूपम् निन्नुदाशेष लोकेश वैरी प्रतापम् कार्तस्व रागेन्द्रचापम् कृत्तिवासम् भजे दिव्यसन्मार्गबन्धुम् शम्भो महादेव देव शिव शम्भो महादेव देव शिव शम्भो शम्भो महादेव देव ग्नमीशम् कालकण्ठम् महेशम् महाव्योमकेशम् कुन्दावदन्तम् सुरेशम् कोटिसूर्यप्रकाशम् भजे मार्गबन्धुम् शम्भो महादेवदेव शिव शम्भो महादेव शम्भो शम्भो मन्थारभूतेरुदारम् मन्थरागेन्द्रसारम् महागौर्य दूरम् सिन्धूरदूर प्रचारम् सिन्धुराजातिधीरम् भजे मार्गबन्धुम् शम्भो महादेव देव शिव शम्भो शम्भो शम्भो ज्वेन्द्रगीतम् स्तोत्रराजम् पठेद्यस्तु भक्त्या प्रयाणे तस्यार्थसिद्धिम् विधत्ते मार्गमध्ये भयम् महेशः शम्भो महादेव देव महादेवदेव शिव शम्भो महादेवदेव शम्भो महादेवदेव शम्भो महादेवदेव